नन्विमे शरणम् प्राप्तम् न त्यजन्ति कदाचन ते माम् शरणमापन्नाम् नान्वपद्यन्त पाण्डवाः पञ्चविः पतिभिर्जाताः कुमारा मे महौजसः एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दना प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो मृकोदरात् अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तुनाकुलिः कनिष्ठाच्छ्रुतकर्मा सर्वे सत्यपराक्रमाः प्रत्युम्नो यादृशः कृष्णा तादृशास्ते महारथाः नन्वि मे धनुषि किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् अधर्मेण सर्वे दासाः कृतास्तथा सभायाम् परिकृष्टाहमेकवस्त्रा रजस्वला नाधिज्यमपि यच्छख्यम् कर्तुमन्येन गाण्डिवम् अन्यत्रार्जुनभीमाभ्याम् त्वया वा मधुसूदन धिक्बलम् भीमसेनस्य धिक्पार्थस्य च पौरुषम् यत्र दुर्योधनः कृष्णा मुहूर्तमपि जीवति य एतानाक्षिपद्राष्ट्रात्सहमात्रा विहिंसकान् अधीयानान् पुराबालान् व्रतस्थान् मधुसूदन भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् कालकूटम् नवम् तीक्ष्णम् सम्भूतम् लोमहर्षणम् सहान्नेन जनार्दन सशेषत्वान् महाबाहो भीमस्य पुरुषोत्तमा प्रमाणकोट्याम् विस्वस्तम् तथा सुप्तम् मृकोदरम् बध्वैनम् कृष्णगङ्गायाम् प्रक्षिप्य पुरमाव्रजतु यदा विबुद्धः कौन्ते यस्तदा सञ्छिद्यबन्धनम् उदतिष्ठन् महाबाहुर्भीमसेनो महाबलः आसीविषैः कृष्णसर्पैर्भीमसेन मदंशयत् सर्वेष्वेवाङ्गदेशेषु नममार च शत्रुः प्रतिबुद्धस्तु कौन्ते यः सर्वान् सर्पानपोधयतु सारथिम् चास्यदयितमपहस्तेन बालकान् वारणावते सयनानार्यया सार्धम् त्रार्या रुदती भीता पाण्डवानिदमब्रवीत् महद्व्यसनमापन्ना शिखिना परिवारिता हाहदास्मि कुतोऽन्वद्य भवेच्छान्तरिहानलात् अनाधा विनशिष्यामि बालकैः पुत्रकैः सह तत्र भीमो महाबाहुर्वायुमेगपराक्रमः आर्यामाश्वासयामासा भ्रातॄंश्चापि वृकोदरः वैनतेयो यथापक्षी करुत्मान्पतताम्बरः तथैवाभिपतिष्यामि